ॐ नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवायत्र्यम्बकायत्रिपुरान्तकायत्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः ॐ श्रीगुरवे नमः गणपतये नमः ॐ श्रीशिवाय नमः ॐ स्थिराय नमः ॐ स्थाणवे नमः ॐ प्रभवे नमः ॐ भीमाय नमः ॐ प्रवराय नमः ॐ वरदाय नमः ॐ वराय नमः ॐ सर्वात्मने नमः ॐ सर्वविख्याताय नमः स्मै नमः ॐ सर्वकराय नमः ॐ भवाय नमः ॐ जटिने नमः ॐ चर्मिणे नमः ॐ शिखण्डिने नमः ॐ सर्वाङ्गाय नमः ॐ सर्वभावनाय नमः ॐ हराय नमः ॐ हरिणाक्षाय नमः भूतहराय नमः ॐ प्रभवे नमः ॐ प्रवृत्तये नमः ॐ निवृत्तये नमः ॐ नियताय नमः ॐ शाश्वताय नमः ॐ ध्रुवाय नमः ॐ श्मशानवासि नमः ॐ भगवते नमः ॐ खचराय नमः ॐ गोचराय नमः ओम नम ओं अभिवाद्या महाकर्मणे महा नम ओं तपस्विने नम ओं ओम नम ओं उन्म्देश प्रछन्नालोक प्रजापत नम ओं महारूपा नम ओं महाकाया ज ृषरूपाय नमः ॐ महायशसे नमः ॐ महात्मने नमः ॐ सर्वभूतात्मने नमः ॐ विश्वरूपाय नमः ॐ महाहनवे नमः ॐ लोकपालाय नमः ओम् अन्तर्हितात्मने नमः ॐ प्रसादाय नमः ॐ नीललोहिताय नमः म् पवित्राय नमः ॐ महते नमः ॐ नियमाय नमः ओम् नियमाश्रिताय नमः ॐ सर्वकर्मणे नमः ओम् स्वयम्भूताय नमः ओम् आदये नमः ओम् आदिकराय नमः ॐ निधये नमः ओम् सहस्राक्षाय नमः म् विशालाक्षाय नमः ओम् सोमाय नमः ॐ नक्षत्रसाधकाय नमः ओम् चन्द्राय नमः ओम् सूर्याय नमः ओम् शनये नमः ओम् केतवे नमः ओम् ग्रहाय नमः ॐ ग्रहपतये नमः ॐ वराय नमः ओम् आद्यन्तलयकर्त्रे नमः ओम् मृगबाणार्पणाय नमः ओम् अनघाय नमः ॐ महातपसे नमः ओम् घोरतपसे नमः ओम् अदीनाय नमः ओम् दीनसाधकाय नमः ओम् संवत्सरकराय नमः ओम् मन्त्राय नमः ॐ प्रमाणाय नमः ओम् परमाय नमः ओम् तपसे नमः ॐ योगिने नमः ॐ योज्याय नमः ॐ महावीजाय नमः ॐ महारेतसे नमः ॐ महाबलाय नमः ॐ सुवर्णरेतसे नमः ॐ सर्वज्ञाय नमः ॐ सुबीजाय नमः ॐ बीजवाहनाय नमः ॐ दशबाहवे नमः ओम् अनिमिषाय नमः ॐ नीलकण्ठाय नमः ओम् उमापतये नमः ॐ विश्वरूपाय नमः ॐ स्वयम्भूताय नमः ओम् बलवीराय नमः ॐ बलाय नमः ॐ गणाय नमः ॐ गणकर्त्रे नमः ॐ गणपतये नमः ॐ दिवाससे नमः य नमः ॐ मन्त्रविदे नमः ॐ परमाय नमः ॐ मन्त्राय नमः ॐ सर्वभावगराय नमः ॐ हराय नमः ओ कमण्डलुधराय नमः ॐ धन्विने नमः ॐ बाणहस्ताय नमः ॐ सर्वज्ञाय नमः ॐ सुबीजाय नमः म् बीजवाहनाय नमः ओम् दशवाहवे नमः ओम् अनिमिषाय नमः ओम् आयुधिने नमः ॐ महते नमः ओम् सुवहस्ताय नमः ओम् सुरूपाय नमः ओम् तेजसे नमः ओम् तेजस्कराय नमः ॐ निभये नमः ओम् उष्णीषिने नमः ओम् सुवक्त्राय नमः ओम् उदग्राय नमः ओम् विनताय नमः ओम् दीर्थाय नमः ओम् हरिकेशाय नमः ओम् सुतीर्थाय नमः ओम् कृष्णाय नमः ओम् शृगालरूपाय नमः ओम् सिद्धार्थाय नमः ओम् हुण्डाय नमः ओम् सर्वशुम्भकराय नमः म् अजाय नमः ॐ बहुरूपाय नमः ॐ गङ्गाधारिणे नमः ओ कपर्दिने नमः ओम् ऊर्ध्वरेतसे नमः ओम् ऊर्ध्वलिङ्गाय नमः ओम् ऊर्ध्वशायिने नमः ॐ नभःस्थलाय नमः ॐ त्रिजटाय नमः ॐ चीरवाससे नमः ओम् रुद्राय नमः ओम् सेनापतये नमः ओम् विभवे नमः ओम् अहस्तराय नमः ॐ नक्तम्बराय नमः ओम् तिग्मन्यवे नमः ओम् सुवर्चसाय नमः ओम् गजघ्ने नमः ॐ दैत्यघ्ने नमः ओम् कालाय नमः ॐ लोकधात्रे नमः ओ गुणाकराय नमः ओम्, ओम् सिंहशार्दूलरूपाय नमः ॐ व्याघ्रचर्माम्बरामृताय नमः ओम् कालयोगिने नमः ॐ महानाथाय नमः ॐ सर्वकामाय नमः ॐ चतुष्पथाय नमः ॐ निशाचराय नमः ॐ प्रेतराजाय नमः म् भूतचारिणे नमः ॐ महेश्वराय नमः ॐ बहुभूताय नमः ॐ बहुधराय नमः ॐ स्वर्भाववे नमः ओम् अमिताय नमः ॐ गतये नमः ॐ नृत्यप्रियाय नमः ॐ निर्ताय नमः ॐ नर्तकाय नर्त नमः ओम् सर्वलालसाय नमः ओम् महाघोरतपसे नमः ओम् शूराय नमः ॐ नित्याय नमः ओम् अनीहाय नमः ओम् निरालयाय नमः ओम् सहस्रहस्ताय नमः ॐ विजयाय नमः ॐ व्यवसायाय नमः ओम् अतन्द्रिताय नमः ओम् अमर्षणाय नमः ॐ मर्षणात्मने नमः ॐ यज्ञघ्ने नमः ओम् कामनाशकाय नमः ॐ दक्षयागापहारिणे नमः ॐ सुसहाय नमः ॐ मध्यमाय नमः ॐ तेजोपहारिणे नमः ॐ बलघ्ने नमः ॐमुद्रिताय नमः म् अर्थाय नमः ओम् अजिताय नमः ॐ वराय नमः ओम् गम्भीरघोषाय नमः ओम् गम्भीराय नमः ओम् गम्भीरबलवाहनाय नमः ओम् न्यग्रोधरूपाय नमः ॐ न्यग्रोधवृक्षकर्णस्थितये नमः ओम् विभवे नमः ओम् सुतीक्ष्णदर्शनाय नमः ॐ महाकायाय नमः ॐ महाननाय नमः ॐ विश्वक्षेणाय नमः ओम् हरये नमः ओम् यज्ञाय नमः ओम् संयुगापीडवाहनाय नमः ओम् तीक्ष्णतापाय नमः ॐ हर्यश्वाय नमः ओम् सहायाय नमः ओम् कर्मकालविदे नमः ओम् विष्णुप्रसादिताय नमः ॐ यज्ञाय नमः ओम् समुद्राय नमः ओम् बडवामुखाय नमः ओम् हुताशनसहायाय नमः ओम् प्रशान्तात्मने नमः ओम् हुताशनाय नमः ओम् उग्रतेजसे नमः ॐ महातेजसे नमः ्याय नमः ॐ विजयकालविदे नमः ॐ ज्योतिषामयनाय नमः ॐ संसिद्धये नमः ॐ सर्वविग्रहाय नमः ॐ शिने नमः ॐ मुण्डिने नमः ॐ जटिने नमः ॐ ज्वालिने नमः ॐ मूर्तिजाय नमः ॐ मूर्धगाय नमः लिने नमः ॐ वैष्णवाय नमः ॐ प्रजविने नमः ॐ तालिने नमः ॐ खेलिने नमः ॐ कालकटङ्कटाय नमः ॐ नक्षत्रापग्रहपदये नमः ॐ गुणबुद्धये नमः ॐ नमः ॐ अगमाय नमः ॐ प्रजापतये नमः ओम् विश्वबाहवे नमः ॐ विभागाय नमः ओम् सर्वतोमुखाय नमः ओम् विमोचनाय नमः ओम् सुशरणाय नमः ओम् हिरण्यकवचोद्भवाय नमः ओम् मेघजाय नमः ॐ बलचारिणे नमः ॐ महीचारिणे नमः ॐ स्तुताय नमः ओम् सर्वतूर्यविनोदिने नमः ॐ सर्ववाद्यपरिग्रहाय नमः ॐ व्याळरूपाय नमः ओम् गुहावासिने नमः ओम् ग्रहमालिने नमः ॐ तरङ्गविदे नमः ॐ त्रिदशाय नमः ॐ कालदृशे नमः ॐ कर्म सर्वबन्धविमोचनाय नमः म् असुरेन्द्राणाम् बन्धनाय नमः ओम् युधिशत्रुविनाशनाय नमः ओम् साङ्ख्यप्रसादाय नमः ओम् दुर्वाससे नमः ओम् सर्वसाधुनिसेविताय नमः ओम ॐ प्रस्कन्दनाय नमः ओम् विभातज्ञाय नमः ओम् अतुल्याय नमः ॐ यज्ञभागविदे नमः साय नमः ओम् सर्वचारिणे नमः ओम् दुर्वाससे नमः ॐ वासवाय नमः ओम् अमराय नमः ॐ हैमाय नमः ॐ हेमगराय नमः ॐ यज्ञाय नमः ॐ सर्वधारिणे नमः ॐ धत्तमाय नमः ोहिताक्षाय नमः ॐ महाक्षाय नमः ॐ विजयाक्षाय नमः ओम् विशारदाय नमः ॐ सङ्ग्रहाय नमः ॐ निग्रहाय नमः ॐ कर्त्रेण नमः ॐ सर्वचीलनिवासनाय नमः ॐ मुख्याय नमः ओम् अमुख्याय नमः म् देहाय नमः ओम् काहलये नमः ओम् सर्वकामदाय नमः ओम् सर्वकालप्रसादाय नमः ओम् सुबलाय नमः ओम् बलरूपभृते नमः ओम् सर्वकामप्रदाय नमः ओम् सर्वदाय नमः ओम् सर्वतोमुखाय नमः ओम् आकाशनिर्विरूपाय नमः निपाताय नमः ओम् अवशाय नमः ओम् खगाय नमः ॐ रौद्ररूपाय नमः ओम् अंशवे नमः ओम् आदित्याय नमः ओम् बहुरश्मये नमः ओम् सुवर्चसिने नमः ॐ वसुवेगाय नमः ॐ महावेगाय नमः ॐ मनोवेगाय नमः ॐ निशाचराय नमः ॐ सर्ववासिने नमः ॐ श्रियावासिने नमः ओम् उपदेशकराय नमः ओम् अकराय नमः ॐ मुनये नमः ओम् आत्मने नमः ॐ निरालोकाय नमः ॐ सम्भग्नाय नमः ॐ सहस्रदाय नमः ॐ पक्षिणे नमः ओम् प्लक्षरूपाय नमः ओम् अतिदीप्ताय नमः ॐ विशाम्पतये नमः ओम् उन्मादाय नमः ॐ मदनाय नमः ओम् कामाय नमः ओम् अश्वत्थाय नमः ओम् अर्थकराय नमः ॐ यशसे नमः ॐ वामदेवाय नमः ॐ वामाय नमः म् प्राग्दक्षिणोदङ्मुखाय नमः ओम् सिद्धयोगिने नमः ॐ महर्षये नमः ओम् सिद्धार्थाय नमः ओम् सिद्धसाधकाय नमः ओम् भिक्षवे नमः ओम् भिक्षुरूपाय नमः ॐ विपणाय नमः ओम् मृगवे नमः ओम् अव्ययाय नमः ॐ महासेनाय नमः ॐ विशाखाय नमः ॐिभागाय नमः ॐ गवाम्पतये नमः ॐ वज्रहस्ताय नमः ॐ विष्कम्भिने नमः ॐ चमूस्तम्भनाय नमः ॐ वृत्तवृत्तकराय नमः ॐ तालाय नमः ॐ मधवे नमः ॐ मधुलोचनाय नमः ॐ वाचस्पत्याय नमः ॐ वाचसनाय नमः ॐ नित्यमाश्रितपूजिताय नमः ओम् ब्रह्मचारिणे नमः ॐ लोकचारिणे नमः ओम् सर्वचारिणे नमः ॐ विचारविदे नमः ओम् ईशानाय नमः ओम् ईश्वराय नमः लाय नमः ॐ निशाचारिणे नमः ॐ पिनाकभभृते नमः ॐ निमित्तस्थाय नमः ॐ निमित्ताय नमः ॐ नन्दये नमः ॐ नन्दिकराय नमः ॐ हरये नमः ॐ नन्दीश्वराय नमः ॐ नद्यै नमः ॐ नन्दनाय नमः ओम् नन्दिवर्धनाय नमः ॐ भगहारिणे नमः ओम् निहन्त्रे नमः ओम् कालाय नमः ॐ ब्रह्मणे नमः ओम् पितामहाय नमः ॐ चतुर्मुखाय नमः ॐ महालिङ्गाय नमः ॐ चारुलिङ्गाय नमः ॐ लिङ्गाध्यक्षाय नमः ओम् सुराध्यक्षायनमः ॐ योगाध्यक्षायनमः ओम् युगावहाजनमः ओम् बीजाध्यक्षायनमः ओम् बीजकर्त्रे नमः ओम् अध्यात्मानुगताजनमः ओम् बलाजनमः ओम् इतिहासायनमः ओम् कल्पायनमः ओम् गौतमा जनमः ओम् निशाकराय नमः ॐ दम्भाय नमः ओम् अदम्भाय नमः ॐ वैदम्भाय नमः ॐ वश्याय नमः ॐ वंशकराय नमः ओम् कलये नमः ॐ लोककर्त्रे नमः ॐ पशुपतये नमः ॐ महाकर्त्रे नमः ओम् अनौषधाय नमः ओम् अक्षराय ओम नमः ॐ परमाय नमः ॐ ब्रह्मणे नमः ॐ बलवते नमः ओम् शक्ताय नमः ॐ नीतये नमः ओम् अनीतये नमः ॐ शुद्धात्मने नमः ॐ शुद्धाय नमः ॐ मान्याय नमः ॐ गतागताय नमः ओम् बहुप्रसादाय नमः ओम् सुस्वप्नाय नमः ओम् दर्पणाय नमः ओम् अमित्रजिते नमः ओम् वेदकाराय नमः ओम् मन्त्रकाराय नमः ओम् विदुषे नमः ओम् स्मरमर्दनाय नमः ॐ महामेधनिवासिने नमः ॐ महाघोराय नमः ॐ वशीकराय नमः ओम् अग्निज्वालाय नमः ॐ महाज्वालाय नमः ओम् अतिधूम्राय नमः ओम् हुताय नमः ॐ हविषे नमः ॐ वृषभाय नमः ॐ शङ्कराय नमः ॐ नित्यवर्चस्विने नमः ओम् भूमकेतनाय नमः ॐ नीलाय नमः ओम् अङ्गलोत्थाय नमः ओम् शोभनाय नमः ॐ निरवग्रहाय नमः ओम् स्वस्तिदाय नमः ओम् स्वस्तिभागाय नमः ओम् स्वस्तिभागिने नमः ॐ भागकराय नमः ॐ लघवे नमः ओम् उत्सङ्गाय नमः ॐ महाङ्गाय नमः ॐ महागर्भपरायणाय नमः ओम् कृष्णवर्णाय नमः ओं सुवर्णाय नमः ओम् सर्वदेहिनामिन्द्रियाय नमः ॐ महापादाय नमः ॐ महाहस्ताय नमः ओम् महाकायाय नमः ॐ महायशसे नमः ओम् महामूर्ध्वे नमः ओम् महामात्राय नमः ॐ महानेत्राय नमः ओम् निशालया जनमः ओम् महान्तकाजनमः ओम् महाकर्णाजनमः ओम् महेष्ठायनम ओम् महाहनवे नमः ओम् महानासायनमः ओम् महाकम्बवे नमः ओम् महाग्रीवायनमः ओम् श्मशानभाजे नमः ओम् महावक्षसे नमः ओम् महोरस्काजनमः म् अन्तरात्मने नमः ॐ मृगालयाय नमः ॐ लम्बनाय नमः ॐ लम्बितोष्ठाय नमः ओम् महामायाय नमः ओम् पयोनिधये नमः ॐ महादन्ताय नमः ॐ महादंष्ट्राय नमः ॐ महाजिह्वाय नमः ओम् महामुखाय नमः ॐ महानखाय नमः ओम् महारोम्णे नमः ओम् महाकेशाजनमः ओम् महाजटाजनमः ओम् प्रसन्नाजनमः ओम् प्रसादाजनम ओम् प्रत्ययाजनम ओम् गीसाधनाजनम ओम् स्नेहनाय नमः ओम् अस्नेहनाय नमः ओम् अजिताय नमः ओम् महामुनये नमः ओम् वृक्षाकाराय नमः ॐ वृक्षकेतवे नमः ओम् अनलाय नमः ओम् वायुवाहनाय नमः ओम् गण्डलिने नमः ओम् मेरुधाम्ने नमः ओम् देवाधिपतये नमः ओम् अथर्वशीर्षाय नमः ओम् सामास्याय नमः ओम् वृत्सहस्रामितेक्षणाय नमः ओम् यजुःपादभुजाय नमः ओम् गुह्याय नमः ओम् प्रकाशाय नमः ओम् जङ्गमाय नमः ओम् अमोघार्थाय नमः ओम् प्रसादाय नमः अभिगम्याय नमः उपकाराय नमः ओम् प्रियाय नमः स्मै नमः ओम् कनकाय नमः ओम् काञ्चनच्छवये नमः ओम् नाभये नमः ओम् नन्दिकराय नमः ओम् भावाय नमः ओम् पुष्कराय नमः ओम् स्फपदये नमः ओम् स्थिराय नमः ओम् द्वादशाय नमः ओम् त्रासनाय नमः ओम् आद्याय नमः म् यज्ञाय नमः ॐ यज्ञसमाहिताय नमः ओम् नक्ताय नमः ओम् कलये नमः ओङ्कालाय नमः ओम् मकराय नमः ओम् कालपूजिताय नमः ओम् सगणाय नमः ओम् गणकाराय नमः ओम् भूतवाहनसारथये नमः ओम् भस्माशयाय नमः ओम् भस्मगोत्रे नमः ॐ भस्मसूदाय नमः ॐ तरवे नमः ॐ गणाय नमः ॐ लोकपालाय नमः ॐ लोकाय नमः ॐ लोका महात्मने नमः ॐ सर्वपूजिताय नमः ॐ शुक्लाय नमः ॐ त्रिशुक्लसम्पन्नाय नमः ॐ शुचये नमः ओम् भूतनिसेविताय नमः ओम् आश्रमस्थाय नमः ओम् क्रियावस्थाय नमः ओम् विश्वकर्ममतये नमः ॐ वराय नमः ओम् विशालशाखाय नमः ओम् ताम् नमः ओम् अम्बुजालाय नमः ओम् सुनिश्चलाय नमः ओम् कपिलाय नमः ओम् कपिशाजनमः ॐ ओम शुक्लाजनमः ओम् आयुषे नमः ॐ परस्मै नमः ओम् अपराजनमः ओम् गन्धर्वायनमः ओम् अतितये नमः ओम् तार्क्ष्यायनमः ओम् सुविज्ञेयाजनमः ओम् सुशारदायनमः ओम् परश्वथायुधाजनमः ओम् देवाजनमः ओम् अनुकारिणे नमः ओं सुबान्धवाय नमः ओम् तुम्बवीणाय नमः ॐ महाक्रोधाय नमः ओम् ऊर्ध्वरेतसे नमः ओम् जलेशयाय नमः ओम् उग्राय नमः ओम् वंशकराय नमः ॐ वंशाय नमः ॐ वंशनादाय नमः ओम् अनिन्दिताय नमः र्वाङ्गरूपाय नमः ॐ मायाविरे नमः ओम् सुहृदे नमः ओम् अनिलायनमः ओम् अनलाय नमः ओम् बन्धनाय नमः ओम् बन्धकर्त्रे नमः ओम् सुबन्धनविमोचनाय नमः ना ॐ यज्ञारये नमः ओम् कामारये नमः ॐ महादंष्ट्राय नमः म् महाबुधाय नमः ओम् बहुधानिन्दिताय नमः ओम् सर्वस्मै नमः ओम् शङ्कराय नमः ओम् चन्द्रशेखराय नमः ओम् अमरेशाय नमः ओम् महादेवाय नमः ओम् विश्वदेवाय नमः ओम् सुरारिघ्ने नमः ओम् अहिर्बुध्न्याय नमः ओम् अनिलाभाय नमः ओम् चेकितानाय नमः ओम् हरिषे नमः ओम् अजैकपादे नमः ओम् कापालिने नमः ॐ त्रिशङ्कवे नमः ओम् अजिताय नमः ॐ शिवाय नमः ओम् धन्वन्तरये नमः ओम् धूमकेतवे नमः ॐ स्कन्दाय नमः ॐ वैश्रवणाय नमः ओम् धात्रे नमः ओम् शक्राय नमः ॐ विष्णवे नमः ॐ मित्राय नमः ॐ त्वस्त्रे नमः ओम् ध्रुवाय नमः ओम् धराय नमः ॐ प्रभावाय नमः ॐ सर्वगाय नमः ॐ वायवे नमः ॐ अर्यम्णे नमः ओम् सवित्रे नमः ॐ रवये नमः ओम् पुषङ्गवे नमः ॐ विधात्रे नमः ॐ मान्धात्रे नमः ॐ भूतभावनाय नमः ॐ विभवे नमः ॐ वर्णविभाविने नमः ओम् सर्वकामगुणावहाय नमः ॐ पद्मनाभाय नमः ओम् महागर्भाय नमः ओम् चन्द्रवक्त्राय नमः ओम् अनिलाय नमः ओम् अनलाय नमः ॐ बलवते नमः ओम् उपशान्ताय नमः ओम् पुराणाय नमः ओम् पुण्यचञ्चुरिणे नमः ओम् कुरुकर्त्रे नमः ॐ कुरुवासिने नमः ॐ कुरुभूताय नमः ओम् गुणौषधाय नमः ओम् सर्वाशयाय नमः ओम् गर्भचारिणे नमः ओम् सर्वेषाम् प्राणिनाम् पतये नमः ओम् देवदेवाय नमः ओम् सुखासक्ताय नमः ओम् सदसत्सर्वरत्नविदे नमः ओम् कैलासगिरिवासिने नमः ओम् हिमवद्गिरिसंश्रयाय नमः ओङ्कूलहारिणे नमः ओम् कूलकर्त्रे नमः ओम् बहुविद्याय नमः ओम् बहुप्रदाय नमः ओम् वणिजाय नमः ॐ वर्धगिणे नमः ॐ वृक्षाय नमः ओम् बकुलाय नमः ओम् चन्दनच्छदाय नमः ओम् सारग्रीवाय नमः ॐ महाजत्रवे नमः ओम् अलोलाय नमः ओम् महौषधाय नमः ओम् सिद्धार्थकारिणे नमः ओम् सिद्धार्थाय नमः ओम् छन्दो व्याकरणोत्तराय नमः ओम् सिंहनादाय नमः ओम् सिंहदंष्ट्राय नमः ओम् सिंहगाय नमः ओम् सिंहवाहनाय नमः ओम् प्रभवात्मने नमः ओम् जगत्कालाय नमः ओम् कालाय नमः ओम् लोकहिताय नमः ओम् तरवे नमः ओम् सारङ्गाय नमः ॐ नवचक्राङ्गाय नमः ओम् केतुमालिने नमः ओम् सभावनाय नमः ओम् भूतालयाय नमः ओम् भूतपतये नमः ओम् अहोरात्राय नमः ओम् अनिन्दिताय नमः ॐ वर्धिताय नमः ॐ सर्वभूतानाम् निलयाय नमः ॐ विभवे नमः ॐ भवाय नमः ओम् अमोघाय नमः ॐ संयताय नमः ओम् अश्वाय नमः ॐ भोजनाय नमः ॐ प्राणधारणाय नमः ॐ धृतिमते नमः ओम् मतिमते नमः ओम् दक्षाय नमः ओम् सत्कृताय नमः ॐ युगाधिपाय नमः ओम् गोपालिने नमः ओम् गोपतये नमः ओम् ग्रामाय नमः ओम् गोचर्मवासनाय नमः ॐ हरये नमः ओम् हिरण्यबाहवे नमः ओम् गुहापालाय नमः म् प्रवेशकाय नमः ॐ प्रकृष्टाय नमः ॐ महाहर्षाय नमः ओम् जितकामाय नमः ओम् जितेन्द्रियाय नमः ओम् गान्धाराय नमः ओम् सुबालाय नमः ओम् तपत्सर्काय नमः ओम ॐ रतये नमः ओम् नराय नमः ओम ॐ महागीताय नमः ॐ महानृत्याय नमः ओम् अप्सरोगणसेविता जनमः ॐ महाकेतवे नमः ॐ महाधातवे नमः महा। ओम् नैकंसानुचराय नमः ओम् चलाय नमः ओम् आवेदनीयाय नमः ओम् आवेशाय नमः ॐ सर्वगन्धसुखावहाय नमः ॐ तोरणाय नमः म् तारणाय नमः ओम् वाताय नमः ॐ परिधीपतिपेतराय नमः ॐ संयोगाय नमः ॐ वर्धनाय नमः ओम् वृद्धाय नमः ओम् अतिवृद्धाय नमः ओम् गुणाधिकाय नमः ओम् नित्याय नमः ओम् आत्मने नमः ओम् सहायाय नमः ओम् देवासुरपतये नमः ओम् पत्ये नमः ॐ युक्ताय नमः ॐ युक्तबाहवे नमः ओम् देवाय नमः ओम् दिविसुपर्वणाय नमः ओम् आषाढाय नमः ओम् सुषाढाजनमो ध्रुवायनम ओम् हरिणाय नमः ओम् हराजनमः ॐ वपुषे नमः ओम् आवतमानाय नमः ॐ वसुश्रेष्ठा जनमः ओम् महापथाजनमः ओम् शिरोहारिणे नमः ओम् विमर्शायनम ओम् सर्वलक्षणलक्षितायनम ओम् अक्षाय नमः ॐ रथं योगिने नमः ॐ सर्वयोगिने नमः ॐ महाबलाय नमः ओम् समाम्नायाय नमः ओम् असमाम्नायाय नमः ओम् तीर्थदेवाय नमः ओम् महारथाय नमः ओम् निर्जीवाय नमः ओम् जीवनाय नमः ओम् मन्त्राय नमः ॐ सुभाक्षाय नमः ओम् वटुकर्कषाय नमः ओम् रत्नप्रभूताय नमः ओम् रक्ताङ्गाय नमः ॐ महार्णवनिपानविदे नमः ॐ मूलाय नमः ओम् विशालाय नमः ओम् अमृताय नमः ओम् व्यक्ताव्यक्ताय नमः ओम् तपोनिधये नमः ओम् आरोहणाय नमः ओम् अधिरोहाय नमः ओम् शीलधारिणे नमः ओम् महायशसे नमः ओम् सेनाकल्पाय नमः ॐ महाकल्पाय नमः ॐ योगाय नमः ॐ योगकराय नमः ॐ हरये नमः ॐ युगरूपाय नमः ॐ महारूपाय नमः ॐ महानागहनाय नमः ओं वधाय नमः ॐ न्यायनिर्ववपणाय नमः ॐ पादाय नमः म् पण्डिताय नमः ओम् अचलोपमाय नमः ॐ बहुमालाय नमः ॐ महामालाय नमः ॐ शशिहरिसुलोचनाय नमः ॐ विस्तराय नमः ॐ लवणाय नमः ॐपाय नमः ॐ त्रियुगाय नमः ॐ सफलोदयाय नमः म् त्रिलोचनाय नमः ॐ विषण्णाङ्गाय नमः ॐ मणिविद्धाय नमः ओम् जटाधराय नमः ओम् विन्दवे नमः ॐ विसर्गाय नमः ॐ सुमुखाय नमः ॐ शराय नमः ॐ सहाय नमः ॐ निवेदनाय नमः खाजाताय नमः ॐ सुगन्धराय नमः ॐ महाधनुषे नमः ॐ गन्धपालिने नमः ॐ भगवते नमः ॐ सर्वकर्मणामुत्थानाय नमः ॐ मन्थानाय नमः ॐ बहुलाय नमः ॐ वायवे नमः ॐ सकलाय नमः ॐ सर्वलोचनाय नमः ॐ तलाय नमः ॐ तालाय नमः ओङ्करस्थालिने नमः ॐध्वसंहरणाय नमः ॐ महते नमः ॐ छत्राय नमः ॐ सुच्छय नमः ॐ विख्याताय नमः ॐ लोकाय नमः श्रयाय नमः ॐ क्रमाय नमः ॐ मुण्डाय नमः ॐ विरूपाय नमः ॐ विकृताय नमः ॐ दण्डिने नमः ॐ कुण्डिने नमः ॐ विकुर्वाणाय नमः ॐ हर्यक्षाय नमः ॐ ककुहाय नमः ॐ वज्रिणे नमः जिह्वाय नमः ओम् सहस्रपादे नमः ओम् सहस्रमूर्ध्ने नमः ॐ देवेन्द्राय नमः ॐ सर्वदेवमयाय नमः ॐ गुरवे नमः ओम् सहस्रबाहवे नमः ॐ सर्वाङ्गाय नमः ओम् सरणाय नमः ॐ सर्वलोककृते नमः ॐ पवित्राय नमः ॐ त्रिककुदे नमः ॐ मन्त्राय नमः ॐ कनिष्ठाय नमः ॐ कृष्णपिङ्गलाय नमः ॐ ब्रह्मदण्डविनिर्मात्रे नमः ॐ श्रुतघ्नीपाशक्तिमते नमः ॐ पद्मगर्भाय नमः ॐ महागर्भाय नमः ॐ ब्रह्मगर्भाय नमः लोद्भवाय नमः ॐ गभस्तये नमः ॐ ब्रह्मकृते नमः ॐ ब्रह्मणे नमः ॐ ब्रह्मविदे नमः ॐ ब्राह्मणाय नमः ॐ गतये नमः ओम् अनन्तरूपाय नमः ॐ एकात्मने नमः ॐ तिग्मतेजसे नमः स्वयम्भुवे नमः ॐध्वगात्मने नमः ॐ पशुपतये नमः ॐ वातरंहसे नमः ॐ मनोजवाय नमः ओम्चन्दनिने नमः ॐ ओम पद्मनालाग्राय नमः ॐ सुरभ्युत्तरणाय नमः ॐ नराय नमः ॐ कर्णिकारमस्रग्मिने नमः ॐ नालमौळये नमः ॐ पिनाकभृते नमः ओम् उमापतये नमः ओम् उमाकान्ताय नमः ॐ जाह्नवीभृते नमः ओम् उमाध्वाय नमः ॐ वराय नमः ॐ वरार्हाय नमः ॐ वरदाय नमः ॐ वरेण्याय नमः ओं सुमहास्वनाय नमः ॐ महाप्रसादाय नमः ॐ दमनाय नमः ओम् शत्रुघ्ने नमः ओम् श्वेतपिङ्गलाय नमः ओम् प्रीतात्मने नमः ॐ परमात्मने नमः ॐ प्रयतात्मने नमः ॐ प्रधानधृते नमः ओम् सर्वपार्श्वमुखाय नमः ॐ त्रेक्षाय नमः ॐ धर्मसाधारणाय नमः ॐ वराय नमः ॐ चराचरात्मने नमः ॐ सूक्ष्मात्मने नमः ओम् अमृताय नमः ॐ गोवृषेश्वराय नमः ओर्षये नमः ॐ वसवे नमः ॐ आदित्याय नमः ओम् विवस्वते नमः ओम् सवित्रे नमः ओम् अमृताय नमः ॐ व्यासाय नमः ओम् सर्गाय नमः ॐ सुसङ्क्षेपाय नमः ॐ विस्तराय नमः ॐ पर्ययाय नमः ॐ नराय नमः ॐ ऋतवे नमः ॐ संवत्सराय नमः ओम् मासाय नमः ॐ पक्षाय नमः ॐ सङ्ख्यासमापनायनम ओङ् कलाकाष्ठालवमात्रामुहूर्ताहक्षपाक्षणाजनमः ओम् विश्वक्षेत्राय नमः ॐ प्रजाबीजायनम ॐ लिङ्गाय नमः ओम् आद्याजनमः ॐ सुनिर्गमाजनम ओम् ससदव्यक्ताय नमः ओम् अव्यक्ताय नमः ओम् पित्रेण ओम् मात्रे नमः ओम् पितामहाय नमः ओम् स्वर्गद्वाराय नमः ओम् प्रजाद्वाराय नमः ओम् मोक्षद्वाराय नमः ओम् त्रिविष्टपाय नमः ओम् निर्वाणाय नमः ॐ ह्लादनाय नमः ॐ ब्रह्मलोकाय नमः ॐ परागतये नमः ओम् देवासुरविनिर्मात्रे नमः ओम् देवासुरपरायणाय नमः ओम् देवासुरगुरवे नमः ओम् देवाय नमः ॐ देवासुरनमस्कृताय नमः ॐ देवासुरमहामात्राय नमः देवासुरगणाश्रयाय नमः ॐ देवासुरगणाध्यक्षाय नमः ॐ देवासुरगणाग्रण्ये नमः ॐ देवादिदेवाय नमः ॐ देवर्षये नमः ॐ देवासुरवरप्रदाय नमः ॐ देवासुरेश्वराय नमः ॐ विश्वस्मै नमः देवासुरमहेश्वराय नमः ॐ सर्ववेदमयाय नमः ओम् अचिन्त्याय नमः ॐ देवतात्मने नमः ॐ आत्मसम्भवाय नमः ओम् उद्भिरे नमः ॐ त्रिविक्रमाय नमः ॐ वैद्याय नमः ॐ विरजाय नमः ॐ नीरजाय नमः म् अमराय नमः ॐ ईद्याय नमः ॐ हस्तीश्वराय नमः ॐ व्याघ्राय नमः ओम् देवसिंहाय नमः ॐ नर्षभाय नमः ॐ विबुधाय नमः ओग्रवराय नमः ॐ सूक्ष्माय नमः ॐ सर्वदेवाय नमः पोमयाय नमः ॐ सुयुक्ताय नमः ॐ शोभनाय नमः ॐ वज्रिणे नमः ॐ प्रासानाम्प्रभवाय नमः ओम् अव्ययाय नमः ॐ गुहाय नमः ॐ कान्ताय नमः ॐ निजाय नमः ॐ सर्गाय नमः ॐ पवित्राय नमः ॐ सर्वपावनाय नमः ॐ श्रृङ्गिणे नमः ॐ शृङ्गप्रियाय नमः ॐ बभ्रवे नमः ॐ राजराजाय नमः ॐ निरामयाय नमः ओम् अभिरामाय नमः ॐ सुरगणाय नमः ॐ विरामाय नमः ॐ सर्वसाधनाय नमः टाक्षाय नमः ॐ विश्वदेवाय नमः ॐ हरिणाय नमः ॐ ब्रह्मवर्तसाय नमः ओम् स्थावराणाम् पतये नमः ॐ नियमेन्द्रियवर्धनाय नमः ॐ सिद्धार्थाय नमः ॐ सिभूतार्थाय नमः ओम् अचिन्त्याय नमः ओं सत्यव्रताय नमः ॐ श्रुचये नमः ॐ व्रताधिपाय नमः ॐ परस्मै नमः ॐ ब्रह्मणे नमः ॐ भक्तानुग्रहकारकाय नमः ओम् विमुक्ताय नमः ॐ मुक्ततेजसे नमः ओम् श्रीमते नमः ॐ श्रीवर्धनाय नमः ॐ जगते नमः ॐ श्रीसाम्बसदाशिवाय नमः